मुद्गलपुराणं खण्डं फैव् लम्बोदरचरितम् अध्यायं तर्टि टु तुलसीवरप्रधानम् श्रीगणेशाय नमः मुद्गल उवाच यथा गजाननप्राह तथा जातं प्रजापदे वृन्दातं प्रणिपत्यैव तपसे वनमाययौ चिन्ताक्रान्दा स्वयं देवी गणेशे बावलालसा गणेशं मनसि ध्यात्वा तदाप तप उत्तमं नाम मन्त्रं जजापैव पूजयामास सादरं लक्षं च लक्षार्धं वर्षाणि प्रगतानि च ततस्तां गणराजस्तु वरदसहस्रायौ प्रणम्यतं प्रपूज्यैव वृन्दातुष्टावहर्षिता वृन्दोवाच नमस्ते विघ्नराजाय भक्तविघ्नहराय च अभक्तेभ्यो विशेषेण विघ्नदाय नमो नमः परेशाय पराणां ते परात्परतराय च भक्तेशाय सदा भक्तिप्रियाय नमो नमः ब्रह्मेशाय गणाधीश ब्रह्मणां ब्रह्मरूपिणे ब्रह्मणां पदये तुभ्यं गणाधिपदये नमः अमेयाय प्रतर्क्याय सदा स्वानन्दवासिने शिवविष्णुमुखेभ्यश्च पददात्रे नमो नमः अनाधाय च सर्वेषां नाधाय परमात्मने वक्रतुण्डाय सर्वेषामादिपूज्याय ते नमः विनायकाय वीराय शूर्पकर्णाय ढुण्ढये गजाननाय चिन्तामणये हेरं पदे नमः अनन्दगुणधाराय नानाखेलकराय दे परेषां तु परेशाय मोषकध्वजिने नमः पूर्णानन्दाय सर्वेषां मात्रे पित्रे नमो नमः ज्येष्ठेभ्यो ज्येष्ठराजाय ज्येष्ठपदप्रदायिने किं स्तौमि त्वां गणाधीश योगाकारं परात्परम् अत प्रणमाम्येवं तेन तुष्टो भवप्रभो गणेशं देहि मे योगं गाणपत्यां क्षमां कुरु क्षमस्व मे पराधं त्वं त्वदुल्लङ्घनभावचम् अन्यत्वं मां गणाधीश मान्यां कुरु पूजने किञ्चिदल्पेन भावेन वरदायका। क्वाकं ते समदां नाथ सम्प्राप्नोति कदापि न तथा तपो मदेनैतत्कृतं क्षन्तुं त्वमर्हसि एवं स्तुत्वा गणाधीशं प्रजापदे वृन्दाताम् प्रत्युवाचेदम् वाक्यम् वाक्यविशारदः श्रीगणेश उवाच मदीयं योगमाद्यम् त्वम् प्राप्स्य नात्रसंशयः गाणपत्या महाभागे भविष्यसि सदा सुते भाद्रशुक्लचतुर्थ्याम् महोत्सवपरायणाः पूजयिष्यन्ति मां भक्त्या तत्र त्वां धारयाम्यहम् एकविंशतिपत्राणि ह्यर्पयिष्यन्ति मानवाः तत्र ते पत्रमेकं मे मान्यं देवि भविष्यति उल्लङ्घन समं पापम् न भूतं न भविष्यति स्वल्पोल्लङ्घनमात्रेण त्वं त्यक्त्वा मया सदा <laughs> ये मामुल्लङ्घयिष्यन्ति तां त्यजामि निरन्तरं तत्रापि तपसा बद्धो वृन्दे त्वां त्वया कृतमिदं स्तोत्रम् भोक्ति मोक्तिप्रदं भवेद ब्रह्म भूयप्रदं पूर्णं पठदे शृण्वदे सदा तुलसीम्ये ये नरामह्यमर्पयन्ति पदा सुते तत्पापहरणं स्तोत्रं भविष्यदि कृदं त्वया उल्लङ्घना कहं नित्यं भविष्यदि विशेषतः अनेन स्तु वदां नित्यं न सर्वं दुर्लभं भवेत् एवमुक्त्वा गणाधीशोऽन्तर्धानमगमत् स्वयं तुलसीकर्षसंयुक्ता बभूवे च प्रजापदे तदा दिशा महाभागा बभूव विगतज्वरा क्रमेण तुलसीजादा विष्णुपत्नी सुपूतिता धीमदांदे पुराणोपनिषद्रीमगले महापुराणे पंचमे खंडे लंबोदरचि तुसी वर प्रधानमंत्राशतमोध्याय ओं